गणेशपुराणम् उपासनाखण्डम् अध्यायं 46 व्यास उवाच कथं नाम्नां सहस्रं तद्गणेश उपदिष्टवान् शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्परा ब्रह्मोवाच देवः पूर्वं पुरारादि पुरात्र जोद्यमे अनर्चना गणेशा विघ्नाकु किल मनसा स विर्धार्य तघ्न कारण महागणपतिम भक्या सभ्यर्च्य यध विघ्न प्रशमनोपायमपृच्छत्तं पराजितः सन्तुष्टः पूजया शम्भोर्महागणपतिस्वयं सर्वविघ्नप्रशमनं सर्वकामफलप्रदं ततस्मै स्वस्य नाम्नां सहस्रमिदमब्रवीद अस्य श्रीमद्गणेश दिव्य सहस्र नामा माला दिव्यसहस्रनामामृतस्तोत्रमाला श्री श्री स्वानन्देशो श्रीमहागणपतिर्ऋषिः देवता ब्रह्मणस्पतिर्देवता नानाविधानिच्छन्दांसि हुं यदि बीजम् तुङ्गमिदं शक्तिः स्वाहा शक्तिरिति कीलकं सकलविघ्नविनाशनद्वारा श्रीब्रह्मणस्पदिप्रीत्यर्थं जपे विनियोगः अधन्यासः गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः गुरु कुमारगुरुरीशानेदि तर्जनीभ्यां नमः ब्रह्माण्डकुम्भचिद्व्योमेदि मध्यमाभ्यां नमः रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः सर्व सर्वसद्गुरुसङ्सेव्य इति कनिष्ठिकाभ्यां नमः लुप्तविघ्नः सुभवनामिति करतलकरपृष्टाभ्यां नमः अध हृदयादिन्यासाः छन्दच्छन्दोद्भव इति हृदयाय नमः निष्कलो निर्मल इदि शिरसे स्वाहा सृष्टिस्थिति लयक्रीड इति शिखायैव षट ज्ञानं विज्ञानमानन्दम् इति कवचाय हुम् अष्टाङ्गयोगफलभृदिति नेत्रयाय वौषट अनन्दशक्तिसहितम् इत्यस्त्राय फट इति दिग्बन्धः अध्यानम् रक्तां बोधिस्तपोतोल्लसदरुणचरोजाधिरूढं त्रिनेत्रं पाशं चैवाङ्गुषाढ्यं परशुमभयदं बाहुभिर्धारयन्तं शक्रियायुक्तं गजास्यं पृथुधरजठरं सिद्धिबुद्धिसमेधं रक्तं चन्द्रार्धमौलिम् सकलभयकरं विघ्नराजं नमामि श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय स्वो सानन्देशाय ब्रह्मणस्पदये साङ्गाय सपरिवाराय सशक्रिकाय सायुधाय सवाघनाय सावरणाय नमः इति म मंद्रेण मानस पंचोपचारे संपू्य पठेत गणपतिसह्रनामस्त्र गणेशणक्रीडो गणनाथो गेकद वक्रुंडो गजवक्त्रो महोदर लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः भीमः प्रमोद आमोदसुरानन्दो मदोत्कडः एरम्भः शम्भरः शम्भुर्लम्बकर्णो महाबलः नन्दनो लम्बडो भेमो मेखनादो गणञ्जयः विनायको विरूपाक्षो वीरशूरवरप्रदः महागणपदेर्बुद्धिप्रियः क्षिप्रसादनः रुद्रप्रियो गणाध्यक्ष उमापुत्रो घनाशनः कुमारगुरुरीशानपुत्रो मोषकवाहनः सिद्धिप्रियस्सिद्धिपदिसिद्धःसिद्धिविनायकः अविघ्नस्तुम्बुरुत्सिंहवाहनो मोहिनीप्रियः कटङ्कटो राजपुत्रशाकलः संमिदोमिदः कूष्माण्डसामसम्भोधिर्दुर्जयो धुर्जयो जयः भूपदिर्भुवनपदिर्भूदानां पदिरव्ययः विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः कभिः कवीनामृषभो ब्रह्मण्यो ब्रह्मविप्रियः ज्येष्ठराजो निधिपदिर्निधिप्रियपदिप्रियः हिरण्मयपुरान्तस्थ सूर्यमण्डलमध्यगः कराहदिध्वस्तसिन्धुसलिलः पूषदन्तभिद उमाङ्गकेलिकुतुकी मुक्तिधक्कुलपावनः किरीडीकुण्डलीहारी वनमाली मनोमयः वै मुख्य हद दैत्यश्रीःपादाहदिजिदक्षिदिः सद्यो जातस्वर्णमुञ्जमेखली दुर्निमित्तहृदुःस्वप्नहृत्प्रसहनो गुणीनादप्रतिष्ठितः सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः पीताम्बरखण्डरथः चित्राङ्गश्यामदशनो बालचन्द्रोहविर्भुजः योगाधिपस्तारकस्थः पुरुषो गजकर्णकः गणाधिराजो विजयस्थिरो गजपतिर्ध्वजी देवदेव वायुकीलकः विपश्चिद्वरदो नादो नाद महाचलः वराहरदनो मृत्युञ्जयो व्याख्राजिनाम्बरः इच्छाशक्रिभवो देवत्रादा दैत्यविमर्दनः शम्भुवक्त्रोद्भवः शम्भुकोपः शम्भुहास्य भूः शम्भुतेजाशिवा शोकहारी गौरी सुखावहः उमाङ्गमलजो गौरी भवः यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्स्रुतिः ब्रह्माण्डकुम्भश्चिद्व्योमभालः सत्यशिरोरुहः जगज्जन्मलयोन्मेषनिमेषोऽज्ञर्कसोमदृगिरीन्द्रैकरदो धर्मधर्मोष्ठः सामबृंहितः ग्रहर्क्षदशनो भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः कुलाचलांसः सो मार्कखण्डोरुद्रशिरोधरः नदी नदभुजसर्पाङ्गुलीकस्तारकानखः व्योमनाभिश्रीहृदयो मेरुपृष्ठोर्नवोदरः क्षिस्तयक्षगन्धर्वरक्षकिन्नरमानुषः पृथ्वी कडिसृष्टिलिङ्गशैलोरोर्दस्रजानुकः पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः सद्भक्तध्याननिगडः पूजावारिनिवारितः प्रतापी काश्यपो मन्दागणको विष्टपी बली यशस्वी धार्मिको जदाप्रथमः प्रमथेश्वरः चिन्तामणिर्द्वीपपधिक् कल्पद्रुमवनालयः रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः तीव्राशिरोद्धृतपदोज्ज्वालिनीमौलिलालितः नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः सकामदायिनीपीठस्पुरदुग्रासनाश्रयः तेजोवदीशिरो रत्नं सत्या नित्यावतंसिदः सविघ्ननाशिनीपीठस्सर्वशक्त्यम्बुजालयः लिपिपद्मासनाधारो वह्निधामत्रयालयः उन्नतप्रपदो गूढगुल्फस् संवृदपार्ष्णिकः पीनजङ्घश्लिष्टजानुस्थूलोरुःप्रोन्नमत्कटिः निम्ननाभिस्थूलकुक्षिः पीनवक्षा भग्नवामरदस्तुङ्गसव्यदन्दो महाहनुः ह्रस्वनेत्रयः शूर्पकर्णो निबिडमस्तकः स्तबगाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः सर्पहारकडीसूत्रः सर्पयज्ञोपवीतवान् सर्पकोडीरकटकस्सर्पग्रैवेयकाङ्गदः सर्पकक्षोदराबन्धः सर्प सर्पराजोत्तरच्छदः रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः रक्तेक्षणो रक्तकरो रक्तताल्वोष्टपल्लवः ेदश्वेदाम्बरधरश्वेदमालाविभूषणः श्वेतातपत्ररुचिरश्वेतचामरवीजितः सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणं सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः शुभाङ्गो लोगसारङ्गः सुदन्दुस्तुवर्धनः किरीडीकुण्डलीहारी वनमाली शुभाङ्गदः इक्षु चाप पाशी इषुचापर शूली चक्रपा सरोजभृत पाशीधृदोत्फल शालिमंजरभत्वृद करो वशी अक्षमालाधरो ज्ञान मुद्रावादरायु पूर्णपात्री कम्बुधरो विधृताङ्गुशमूलकः करस्थाम्रफलश्चूदकलिकाभृत्कुठारवान् पुष्करस्थस्वर्णखडी पूर्णरत्नाभिवर्षकः भारती सुन्दरीनाथो विनायकरदिप्रियः महालक्ष्मीप्रियतमः सिद्धलक्ष्मी मनोरमः रमा रमेशपूर्वाङ्गो दक्षिणो मामहेश्वरः महीवराह वामाङ्गोरदिगन्धर्पपश्चिमः आमोदमोदजनः सम्प्रमोदप्रमोदनः संवर्धिदमहावृद्धिर्वृद्धिसिद्धिप्रवर्धनः दन्तसौमुख्यसुमुख कान्दिकन्दलिताश्रयः मदनावत्या श्रद्धाङ्घ्रिकृतवैमुख्यदुर्मुखः विघ्नसम्बल्लवः पद्मः सर्वोन्नदमद्रवः विघ्नकृन्निम्नचरणो द्राविणी शक्तिसत्कृतः तीव्राप्रसन्ननयनोज्ज्वालिनी पालितैकदृग मोहिनी मोहनो भोगदायिनी कान्तिमण्डनः कामिनी कान्दवक्त्रश्रीरधिष्ठिदवसुन्धरः वसुधारामदोन्नादो महाशङ्खनिधिप्रियः न मध्वसुमदीमायी महापद्मनिधिप्रभुः सर्वसद्गुरुसंसेव्यशोचिष्केशहृदाश्रयः ईशानमूर्धा देवेन्द्रशिखपवनन्दनः प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक ऐरावतादिसर्वाशावारणो वारणप्रियः वज्रद्यास्त्रपरी गणचंडस्रय जया, जया विजया विजया जयपरिकर्चित पदाबो निंदवनस्थि विलासिनीस शौंडी सौंदम अनन्दानन्दसुखदसुमङ्गलसुमङ्गलः ज्ञानाश्रयक्रियाधार इच्छाशक्तिनिषेवितः सुभगासंसृदपदो ललिता ललिताश्रयः कामिनी पालनकामकामिनी केलिलालितः सरस्वत्याश्रयो गौरीनन्दनश्रीनिकेतनः गुरुगुप्तपदो वाचा सिद्धो वागीश्वरीपतिः नलिनीकामुको वामारामो ज्येष्ठा मनोरमः रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गचक्रिकः विश्वादिजननत्राणस्वाहाशक्तिसकीलकः अमृताब्धिकृतावासो मदघूर्णिदलोचनः उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः नित्यसेव्यो दिगम्बरः अनापायो नन्ददृष्टिरक् प्रमेयो जरामरः अनाविलोप्रदिहदिरच्युतो मृदमक्षरः अप्रतर्क्योक्षयोज्ययो नाधारो नामयोमलः अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः अनाकारोऽग्भूम्यग्निबलघ्नोव्यक्तलक्षणः आधार पीठ माधार आधारपीठार आधाराध्येयर्जि आखुदन आशापूरक आखुमारध चाप इक्षुभलालसुचापादिरेकश्रीक्षुचाप इक्षु इक्षु निषेविद इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः इन्दीवरदलश्याम इन्दुमण्डलमण्डितः इद्मप्रिय इडाभाग इडावानिन्दिराप्रियः इक्ष्वाकुविघ्नविध्वंसी इति कर्तव्यदेप्सिदः ईशानमौलिरीशान ईशान प्रिया इदिहा ईदिह ईषणात्रयकल्पान्त ईहामात्रविवर्जितः उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ऊर्जस्वानूष्मलमद ऊहापोह दुरासदः ऋग्यजुस्सामनयनरुद्धिसिद्धिसमर्पकः ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः लुप्तविघ्नस्वभक्तानां लुप्तशक्रिसुरद्विषां लुप्तश्रीर्विमुखार्चानां लुदाविस्फोटनाशनः एकारपीठमध्यस्त ये एकपादकृतासनः ये येदिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ऐश्वर्यनिधिरैश्वर्यमहि कामुष्मिकप्रदः ऐरम्मदसमोन्मेष ऐरावदसमाननः ओङ्कार वाच्य ॐकार ओजस्वानोषधीपतिः औदार्यनिधिरौद्धत्यधैर्य औन्नत्य निःसमः अङ्गुष्य सुरनागानामङ्गुषाकारसंस्थितः अस्समस्तविसर्गान्तपदेषु परिकीर्तितः कमण्डलुधरकल्पकर्पदी कलभाननः कर्मसाक्षी कर्मकर्ता कर्म कर्मफलप्रदः कर्म कर्म कदम्बगोलकाकारगणनायकः कारुण्यदेहकपिलः कथखक्कडिसूत्रभृद खर्वः खड्गप्रीहक् खड्गः खान्धान्धस् स्थखनिर्मलः कल्वाडशृङ्गनिलयः खड्वाङ्गी खदुरासदः गुणाढ्यो गहनो गद्यो गुहाशयो गुढाब्धिस्थो गुरुगम्यो गुरुर्गुरुः खण्टाखर्करिकामाली खडकुम्भो खडोदरः ङकारवाच्यो ङकारो ङकाराकारशुण्डभृद चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः चराचरपिदाचिन्दा चिन्तामणिश्चर्वणलालसः छन्दश्चन्दोद्भवश्चन्दो दुर्लक्ष्यश्चन्दविग्रहः जगद्यो निर्जगत्साक्षी जगदीशो जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः श्रवद्गण्ढोलसद्धानचङ्कारिभ्रमराफुलः टङ्कारस्वारसम्रावष्ठङ्कारमणिनूपुरः ठध्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धितः डिण्डिमुण्डो डाजिनीशो डामरो डिण्डिमप्रियः ढक्कानिनादमुदिदो ढौङ्गोढुण्डिविनायकः तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वं पदनिरूपितः तारकान्तरसंस्थानस्तारकस्तारकान्तकः का, स्थाणुस्थाणुप्रियस्थादास्तावरञ्जङ्गमञ्जगद दक्षयज्ञप्रमथनो दादा दानं दमोदया दया वां दिव्य विभवो वान्दिव्यविभवो दण्डभृद्दण्डनायकः दण्डप्रभिन्नाभ्रमालो दैत्यवारणधारणः दंष्ट्रालग्नद्वीपखडो देवार्थनृगजाकृतिः धनं धनपदेर्बन्धुर्धनदो धरणीधरः ध्यानैकप्रगणोऽध्येयोऽध्यानन्द्यानपरायणः ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः निष्कलो निर्मलो नित्यो नित्या नित्यो निरामयः परं व्योम परन्धाम परमात्मा परं पदं परात्परः पशुपदिः पशुपाशविमोचनः पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः प्रमाणप्रत्ययातीदः प्रणतार्तिनिवारणः फणिहस्तः फणिपदि स्फूत्कारः फणिदप्रियः बाणार्चिताङ्घ्रियुगलो बृहत् तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मविप्रियः बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः लक्ष्मीको भर्गो भद्रो भयापहः भगवान् भक्तिसुलभो भूदिदो भूदिभूषणः भव्यो भूतालयो भोगदाभ्रूमध्यगोचरः मन्द्रो मन्त्रपदिर्मन्द्रीमदमत्तो मनोमयः मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः महाबलो महावीर्यो महाप्राणो महामनाः यज्ञो यज्ञपधिर्यज्ञगोप्तायज्ञफलप्रदः यशस्करो योगगम्यो याज्ञिको याचकप्रियः रसो रसप्रियो रञ्जको रावणार्चितः राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः लक्षो लक्षपदिर्लक्ष्यो लयस्थो लड्डुकप्रियः लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः विकर्ता विश्वतश्चक्षुर्विधादा विश्वतोमुखः वामदेवो विश्वनेता वज्रिवज्रनिवारणः विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः शब्दब्रह्मसमप्राप्य शम्भुशक्तिगणेश्वरः शास्ताशिखाग्रनिलयः शरण्यः शम्बरेश्वरः षडर्तुकुसुमस्रघ्वीषडाधारषडक्षरः संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् सृष्टिस्थितिलयक्रीडः साक्षी समुद्रमथनस्वयं वेद्य स्वदक्षिणः स्वतन्त्रसत्यसङ्कल्पः सामगानरतः सुखी हंसो हस्त्यपिशाचीशो हवनं हव्यकव्यभुक अव्यं हुदप्रियो हृष्ठो हृल्लेखा मन्त्रमध्यगः क्षेत्राधिपः क्षमा भर्ता क्षमा क्षमपरायणः क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः धर्मप्रदोर्थधक्कामदा सौभाग्यवर्धनः विद्याप्रदो आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः सर्ववश्यकरो गर्भदोषः पुत्रपौत्रदः मेधाधकीर्तिदशोकहारी दौर्भाग्यनाशनः ना प्रदिवादिमुखस्तम्भोरुष्टचित्तप्रसाधनः पराभिचारशमनो दुःखः बन्धमोक्षदः लवस्तृढिक्कलाकाष्ठानिमेषस्तत्परक्षणः खडीमुहूर्तः प्रहरो दिवानक्तमहर्निशम् पक्षो मासर्त्वयनाब्धयुगम् कल्पो महालयः राशिस्तारातिधिर्योगो वारकरणमंशकं लग्नं होराकालचक्रं मेरुःसप्तर्षयो ध्रुवः राहुर्मन्धक्कविर्जीवो बुधो भौमः शशीरविः कालसृष्टिस्तिधिर्विश्वं स्थावरं जङ्गमं जगद भूरापोऽग्निर्मरुद्व्योमाहङ्कृधिः प्रकृतिः पुमान् ब्रह्मा विष्णुः शिवो रुद्र ईशक्तिः सदा शिवः त्रिदशाः पितरसिद्धा यक्षारक्षांसि किन्नराः समुद्रासरितः शैलाभोदं भव्यं भवोद्भवः सांख्यं पादञ्चलं योगं पुराणानि श्रुति स्मृतिः वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् वैखानसं भागवदं मानुषं पाञ्चरात्रगं शैवं पाशुपदं कालामुखं भैरवशासनं शाक्तं वैनायकं सौरं जैनं मार्हदसंहिता सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् बन्धो मोक्षः सुखं भोगो योगः सत्यमनुर्महान् स्वस्ति हुं फट् स्वधा स्वाहाश्रौ षड्वौ षड्वषन्नमः ज्ञानं विज्ञानमानन्दो बोध संवित् समो समः एक एकाक्षराधार एका एकाक्षरपरायणः एकाग्रधीरेकवीर एकोनेकस्वरूपधृक द्विरूपो द्विभुजो द्विक्षो द्विरदो द्वीपरक्षकः द्वै माधुरो द्विवदनो द्वन्द्वहीनो द्वयातिकः त्रिधामात्रिकरत्रेदात्रिवर्गफलदायकः त्रिगुणात्मात्रिलोकाद्दिस्त्रिशक्त्रीशस्त्रिलोचनः चतुर्विधवजो वृत्तिपरिवृत्तिप्रवर्तकः चतुर्बाहुश्चतुर्दन्तश्चदुरात्मा चतुर्भुजः चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः चतुर्थी पूजनप्रेतश्चतुर्थीतिधिसम्भवः पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः पञ्चतालः पञ्चकरः पञ्चप्रणवमादृकः पञ्च ब्रह्ममयस्फूर्तिः पञ्चावरणवारितः पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः षट्कोणपीठक्रधामाड् ग्रन्थिभेदः षडङ्गध्वान्दविध्वंसी षडङ्गुलमहाह्रदः षण्मुखः षण्मुखभ्रादा षट्शक्तिपरिवारितः षड्वैरिवर्गविध्वंसी षडोर्मिभयभञ्जनः षट् तर्कधूर्यषट्कर्मा षड्गुह्णः षड्रसाश्रयः सप्तपादालचरणः सप्तद्वीपोरुमण्डलः सप्त स्वर्लोकमुकुटः सप्तसप्तिवरप्रदः राज्य सप्तांगसुखद सप्तर्षिगणविद सप्तंदो नि होंत्रस्सवराश्रय सलिकासार सप्तमाद्रिषेविद सप्तंदो मोदो मख प्रभु अष्टमूर्तेऽध्येयमूर्तिरष्टप्रकृतिकारणम् आश्ता अष्टाङ्गयोगफलभृदष्टपत्राम्भुजासनः अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः अष्टपीठोपीठश्रीरष्टमादृसमावृतः भृद अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृद अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविः प्रियः अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः नवनागासनाध्यासी नवनिध्यनुशासितः नवद्वारपुरावृत्तो नवद्वारनिकेतनः नवनाथमहानवनागविभूषितः नवनारायणस्तुल्यो नवदुर्गानिषेवितः नवरत्नविजित्रागो नवशक्तिशिरोद्धृतः दशात्मको दश भुजो दशदिक्पतिवन्दितः दशाध्यायो दशप्राणो दशेन्द्रियनियामकः दशाक्षरमहामन्त्रो दशाशाव्यापि विग्रहः एकादशमहारुद्रैस्तुतशैका द्वादशद्विदशाष्ठादिदोर्दण्डास्त्रनिकेतनः त्रयोदशभिधा भिन्नो विश्वे देवाधिदैवतं चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः दस चतुर्दशाद्यविद्याढ्यश्चतुर्दश जगत्पदिः सामपञ्चदशः पञ्चदशी शीतांशुनिर्मलः तिथि पञ्चदशाकारस्थित्या पञ्चदशार्चिदः षोडशाधारनिलय षोडशस्वरमादृकः षोडशान्दपदावास षोडशेन्दुकलात्मकः कला सप्तदशी सप्तदश सप्तदशाक्षरः अष्टादशद्वीपपदिरष्टादश पुराणकृत अष्टादशौषधीसृष्टिरष्टादशविधिस्मृदः अष्टादश लिपिव्यष्टिसमष्टिज्ञानकोविदः अष्टादशान्नसम्पत्तिरष्टादशविचादिकृत एकविंशः पुमानेकविंशत्यङ्गुलिवल्लवः चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः सप्तविंशतितारेषस्सप्तविंशतियोगकृद द्वात्रिंशद्भैरवाधीषश्चतुस्त्रिंशन्महाह्रदः षट्त्रिंशत्तत्त्वसम्भूदिरष्टत्रिंशत्कलात्मकः पञ्चाशद्विष्णुशक्तिषः पञ्चाशन्मातृकालयः द्विपञ्चाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रयः पञ्चाशदक्षरश्रेणी महासिद्धि योगिनी चुष्टिम सिद्धिनी वृंदविद नम देोनपंचाशन्मरगनर्गल चुष्ट्यने कलाधि अष्टिमतीभरवंद चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः शदानन्दः शतधृदिशतपत्रायदेक्षणः शतानीकशतमखशतधारावरायुधः सहस्रपत्रनिलयसहस्रफणिभूषणः सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपाद सहस्रनामसंस्तुत्यसहस्राक्षबलापहः दशसाहस्रभणिभृद्भणिराजकृतासनः अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः लक्षाधारप्रियाधारो लक्षाधारमनोमयः चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः चतुरशीतिलक्षाणां जीवानां देहसंस्थितः कोटिसूर्यप्रदी काश्यकोटिचन्द्रांशुनिर्मलः शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः त्रयत्रिंशत्कोटिसुरश्रेणीप्रणदपादुकः अनन्ददेवदासेव्यो ह्यनन्दशुभदायकः अनन्दनामानन्दश्रीरनन्दोऽनन्दसौख्यदः अनन्दशक्तिसहितो ह्यनन्दमुनिसंस्तुतः अनन्दमुनिसंस्तुत अनन्द अनन्द ओ न म इति इति गणपतिसहस्रनामस्तोत्रम् सम्पूर्णम् ओ इदि वैनायकं नाम्नां सहस्रमिदमीरिदम् इदं ब्राह्मे मुहूर्ते वै यः पठेत् प्रत्यहं नरः करस्तं तस्य सकलमहिकामुष्मिकं सुखम् आयुर आरोग्यम आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः मेधा मेधाप्रज्ञाधृदिक्पान्तिर्सौभाग्यमधिरूपता सत्यं दयाक्षमाशान्तिर्दाक्षिण्यं धर्मशीलता जगत्संवननं विश्वसंवादो वेदपाटवम् सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ओजस्तेजकुलं शीलं प्रतापो वीर्यमार्यदा ज्ञानं विज्ञानमास्तिक्यं धैर्यं विश्वासदा तथा धनधान्यादिवृद्धिश्च सकृतस्य जपाद् भवेद् वश्यम् च दुर्विशम् विश्वम् जपादस्य प्रजायते राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः जपदेयस्य वश्यार्थम् स दासस्तस्य जायते धर्मार्थकाममोक्षाणा मनायासेन साधनम् शाकिनीडाकिनीरक्षो यक्षग्रहभयापहम् साम्राज्यसुखदं समस्तकला समस्तकलहृध्वंसी दग्धं बीजप्ररोहणं दुःस्वप्ननाशनं क्रुद्धस्वामिचित्तप्रसाधनम् षट्कर्माष्टमःसिद्धेत्रिकालज्ञानकारणम् परकृत्यप्रशमनं परचक्रविमर्दनम् सङ्ग्रामो सर्वेषामेदमेकम् जयावहम् सर्ववन्ध्यत्वदोषघ्नम् गर्भरक्षैककारणम् पढ्यदे प्रत्यकं यत्र स्तोत्रं गणपदे हृदं देशे तत्र न दुर्भिक्षर्मादयो दुरितानि च न तद्गेहं जहादि श्रीर्यत्रायं जप्यते स्तवः क्षयः कुष्टः प्रमेहांशौ भगन्तरविसूचिके गुल्मप्लीहानवल्मीकमधिसारं महौदरं कासं श्वास गुदावर्तं शूलशोफं जलोदरं शिरो रोगं वमिं हिक्कां गण्ढमालामरोचकं पादपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् आगन्तुं विषमं शीदमुष्णं चैकाकिकादिकम् इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् सर्वं प्रशमयत्याश्रुस्तोत्रस्यास्य सकृजपः प्राप्यतेऽस्य जपात्सिद्धिस्त्री शूद्रपतितैरपि सहस्रनाममन्त्रोऽयं जक्तव्यस्तु शुभाप्तये महागणपदे स्तोत्रम् सकामः प्रजपन्निदम् इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः चन्द्रेन्द्रभास्करोपेन्द्रब्रह्म सर्वादिसत्मसु कामरूपः कामगदि भुक्त्वा यथेप्सिदन् भोगानभीष्टैः सह बन्धुभिः गणेशानुचरो भूत्वा महागणपदे प्रियः नन्दीश्वरादिसानन्दैर्नन्दिकलैर्गणैः शिवाभ्यां कृपया पुत्र निर्विशेषेण लालितः शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते निष्कामस्तुजपन्नित्यं भक्र्या विघ्नेशतत्परः योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितिनिरन्तरोदितानन्दे परमानन्दसंज्ञिते विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते लीनो वैनायके धाम्नि रमदे नित्यनिर्वते इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतं व्याहृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् इहामुत्र अविश्लेशं सर्वैश्वर्यप्रदायकम् स्वच्छतचारिणाप्येष येन सन्ध्यार्यदे स्तवः स रक्ष्यदे शिवोद्भूतैर्गणैरप्यष्टकोटिभिः लिखितं पुस्तके स्तोत्रं मन्द्रभूतं प्रपूजयेद् तत्र सर्वोत्तमालक्ष्मी सन्निधत्ते निरन्तरम् दानैरशेषैरखिलैर्वतैश्च तीर्थैरशेषैरखिलैर्मखश्च न तत्फलं विन्दति यद्गणेश सहस्रनाम्ना स्मरणेन सद्यः ये दन्नाम्नां सहस्रं पठति दि दिनमणौ प्रत्यकं प्रोज्जिहानि सायं मध्यन्दिने वा त्रिश्रवणमधवा सन्तदं वा जनो यः स स्याद्वैश्वर्यधुर्यप्रभवति वचसां कीदिमुच्चैस्तनोदि दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः नियदो अकिञ्चनोऽप्यकचित्तो नियतो नियताशनः प्रजपंश्चदुरोमासान् गणेशार्चनतत्परः दरिद्रतां समुन्मूल्यसप्तजन्मानुगामपि लभदे महदीं लक्ष्मीमित्याज्ञा पारमेश्वरी आयुष्यं वीदरोगम् कुलमधिविमलं सम्पदश्रेणिदानाः कीर्तिः भनदिरभिनवा वदा भणतिरभिनवा कान्तिरव्याधिभव्या पुत्रात्सन्धःकलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तन्नित्यं ह्यस्तोत्रमेतत् गणपदेस्तस्य हस्ते समस्तम् गणञ्जयो गणपति हरैम्बोधरणीधरः महागणपतिर्बुद्धिप्रियः क्षिप्रसादनः अमोघसिद्धिरमिदमन्द्रश्चिन्तामणिर्निधिः सुमङ्गलो बीजमाशा पूरको वरदः कविः काश्यपो नन्दनो वाचा सिद्धो डुण्ढिर्विनायकः मोदकैरेभिरत्रैकविंशत्या नामभिपुमान् यस्तौदि मद्गदमना मदाराधनतत्परः सुदो नाम्नां सहस्रेण तेनाहं नात्र संशयः नमो नमः सुकरपूजिदाङ्घ्रये नमो नमो निरुपममङ्गलात्मने नमो नमो विपुलसाधकसिद्धये नमो नमः करिकलभानायते किङ्गिणी गणरचितचरणः प्रकटितगुरुमिदचारुकरणः मदजललहरीकलितकपोलः शमयदुदुरितं गणपतिर्नृपनाम्ना इति श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उपासनाखण्डे ईश्वरमहागणपतिसंवादे श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनं नाम सम्पूर्णम् श्रीमद्गणेशार्पणमस्तु इति श्रीमद्गणेशसहस्रनाममालामन्त्रात्मकस्तोत्रं समाप्तं श्री स्वानंदर्पणमर् ष ष्याय ओ